अस्तुतर स दिशि देतात्मा हिमालो नाम नगराज पूर्वापरौ तोयनिधि विगा्य स्थिव्या इव मानदंड यकल्य वत्स मेरौ स्थिते दोग्धरि दोहदक्षे भास्वन्ति रत्नानि महौषधीश्च पृथूपदिष्टाम् दुदुहुर्धरित्रीम् अनन्तरत्नप्रभवस्य यस्य हिमम् न सौभाग्यविलोपि जातम् एको हि दोषो गुणसन्निपाते निमज्जतीन्दोः किरणेष्विवाङ्कः यश्चाप्सरो विभ्रममण्डनानाम् सम्पादयि त्रीम् शिखरैर्बिभर्ति बलाहकेदविभक्तरागाम् अकालसन्ध्यामिव धातुमत्ताम् आमेखलम् सञ्चरताम् घनानाम् छायाम् अधः सानुगताम् निषेव्य उद्वेजिताः वृष्टिभिराश्रयन्ते शृङ्गाणि यस्यातपवन्ति सिद्धाः पदम् तुषारस्रुतिधौतरक्तम् यस्मिन्न दृष्ट्वापि हतद्विपानाम् विदन्ति मार्गं विदिमागरंधर मुक्त मुक्ताफल केसरीताक्षराास भूर्ज कुंजरबिंदुशोणा विद्याधर व्रज विद्याधरसुंदर अनंगलेखक्रियम यूरय कीचकर समीन उदाता किरा प्रदापग कल कघट्टिता सरलद्रुमा सृत क्षीरतया प्रसूक सानूनि गन्धः सुरभीकरोति वने चराणाम् वनितासखानाम् दरीगृहोत्सङ्गनिषक्तभासः भवन्ति यत्रौषधयोरजन्याम् अतैलपूरा सुरतप् प्रदीपाः उद्वेजयत्यङ्गुलि पार्ष्णिभागान् मार्गे शिलीभूतहिमेऽपि यत्र न गतिमश्वमुख्यः दिवाकराद्रक्षति यो गुहासु लीनम् दिवा भीतमिवान्धकारम् क्षुद्रेऽपि नूनम् शरणम् प्रपन्ने ममत्वमुच्चैः शिरसां सतीव लाङ्गूलविक्षेपविसर् शोभैः इतस्ततश्चन्द्रमरीचिगौरैः यस्यार्थयुक्तम् गिरिराजशब्दं कुर्वन्ति वालव्यजनीश्च मर्यः यत्राम् यदृच्छया किम् दरी दरीगृहद्वारविलम्बिबिम्बाः तिरस्करिण्यो जलदा भवन्ति भागीरथी निर्झरशीकराणाम् वोढामुहुः कम्पित देवदारुः यद्वायुरन्विष्टमृगैः किरातैः आसेव्यते भिन्नशिखण्डिबर्हः सप्तर्षिहस्तावचितावशेषाणि अधो विवस्वान्परिवर् मानः पद्मानि यस्याग्रसरोरुहाणि प्रबोधयत्यूर्ध्वमुखैर्मयूखैः यज्ञाङ्गयोनित्वमवेक्ष्य यस्य सारम् धरित्रीधरणक्षमम् च प्रजापतिः कल्पितयज्ञभागम् शैलाधिपत्यम् स्वयमन्वतिष्ठत् स मानसीम् मेरुसखः पितृणाम् कन्याम् कुलस्य स्थितये स्थितिज्ञः मेनाम् मुनीनामपि माननीयाम् आत्मां विधिपे काल क्रमेण तो प्रवृत्ते स्वयोग्ये सुरत मनोरम यौवन मुद गर्भोवरराजपत्न असूत सा नागवधूपभोग्यम् मैनाकमम्भोनिधिबद्धसख्यम् क्रुद्धेऽपि वृत्रशत्रौ। अवेदनाज्ञम् कुलिशक्षतानाम् अथावमानेन पितुः प्रयुक्ता दक्षस्य कन्या भव पूर्वपत्नी सती सती योगविसृष्टदेहा ताम जन्मने शैलवधूम प्रपेदे सा भूधराणामधिपेन तस्याम् समाधिमत्याम् उदपादिभव्या सम्यक्प्रयोगादपरिक्षतायाम् नीताविवोत्साः गुणेनसंपत। सम्पत् प्रसन्नदिक् पांशुविक्तवातम् शङ्खस्वनानन्तरपुष्पवृष्टि शरीरिणाम् स्थावरजङ्गमानाम् सुखाय तज्जन्मदिनम् बभूव तया दुहित्रा सुतराम् सवित्री प्रभा मण्डलया चकासे विदूरभूमिः नवमेघशब्दात् उद्भिन्नया रत्नशलाक एव दिने दिने सा परिवर्धमाना लब्धोदया चान्द्रमसीवलेखा पुपोषलावण्यमयान्विशेषान् ताम ज्योत्स्नारा कला नामना बंधु प्रिया बंधुजनोजु उमेति मात्रा तपसो निषिधा पश्चादुमाख्याम् सुमुखी जगाम महीभृतः पुत्रवतोऽपि दृष्टिः तस्मिन्नपत्ये न जगामतृप्तिम् अनन्तपुष्पस्य मधोर्हि चूते द्विरेफमाला सविशेषसङ्गा प्रभामहत्या शिखयेव दीपः त्रिमार्गयेवत्रिदिवस्य मार्गः संस्कारवत्येव गिरामनीषी तया सपूतश्च विभूषितश्च मन्दाकिनी सैकतवेदिकाभिः सा कंदुकै रेमे मुहुर्मध्यगता कंदुक्रिमपुत्रक रे मुहुर्म्यगता सखीनास ताम हंसमाला शरदीव गंगा महौषधिम् नक्तमिवात्मभासः स्थिरोपदेशाम् उपदेशकाले प्रपेदिरे प्राक्तनजन्मविद्याः असम्भृतम् मण्डनमङ्गयष्टेः अनासवाख्यम् करणम् कामस्य पुष्पव्यतिरिक्तमस्त्रम् बाल्यात्परं साथ वयः प्रपेदे उन्मीलितम् तूलिक एव चित्रम् सूर्यांशुभिः भिन्नमिवारविन्दम् बभूव तस्याश्चतुरस्रशोभि वपुर्विभक्तम् नवयौवनेन अभ्युन्नताङ्गुष्ठनखप्रभाभिः निक्षेपणाद्रागमिवोद्गिरन्तौ आजह्रतुस्तत् चरणौ पृथिव्याम् स्थलारविन्दश्रियमव्यवस्थाम् सा राजहंसैरिव सन्नताङ्गी गतेषु लीलाञ्चितविक्रमेषु व्यनीयतप्रत्युपदेशलुब्धैः आदित्सुभिः नूपुर सिंजिता नचाति दीर्घे जंघे शुभे सृष्टवतदी शांग विधौ विधा लाव्य उत्द्य इवास यहा हस्तावि कदली विशेषा लब्ध्वापि लोके परिणाहि रूपं जाताह पिणा जाताबा एतावता एतावतान्नन्वनुमे यशोभि काञ्चीगुणस्थानमनिन्दितायाः आरोपितम् यद्गिरिशेन पश्चात् अनन्यनारीकमनीयमङ्कम् तस्याः प्रविष्टा नतनाभिरन्ध्रम् रराजतन्वी नवलोमराजिः नीवीमतिक्रम्यसितेतरस्य तन्मेखला मध्यमणेरिवार्चिः मध्येन सा वेदि विलग्नमध्या वलित्रयम् चारुबभारबाला आरोहणार्थम् नवयौवनेन कामस्य सोपानमिव प्रयुक्तम् अन्योन्यमुत्पीडयतुत्पलाक्ष्याः स्तनद्वयम् पाण्डु तथा प्रवृद्धम् मध्ये यथा श्याममुखस्य तस्य मृणालसूत्रान्तरमप्यलभ्यम् शिरीशपुष्पाधिकसौकुमार्यौ बाहूतदीयाविति मे वितर्कः पराजितेनापि कृतौ हरस्य यौ कण्ठपाशौ मकरध्वजेन कण्ठस्य तस्या स्तनबन्धुरस्य मुक्ताकलापस्य च निस्तलस्य अन्योन्यशोभाजननात् बभूव धारण भूषण भूष्य भाव चंद्र गुणा नुंक्ते पद्माश्रिता चांद्रमसीम्या प्रतिप्य लोला द्विसंश्रयाम् प्रीतिमवापलक्ष्मीः पुष्पं प्रवालोपहितम् यदि स्यात् मुक्ताफलम् वा स्फुटविद्रुमस्थम् ततोऽनुकुर्यात् विशदस्य तस्याः ताम्रौष्ठपर्यस्तरुचस्मितस्य स्वरेण तस्याम् अमृतस्रुतेव प्रजल्पितायाम् अभिजातवाचि अप्यन्यपुष्टा प्रतिकूलशब्दा श्रोतुर्वितन्त्रीरिव ताड्यमाना प्रवातनीलोत्पलनिर्विशेषम् अधीरविप्रेक्षितमायताक्ष्या तया गृहीतम् नु मृगाङ्गनाभ्यः ततो गृहीतम् नु मृगाङ्गनाभिः तस्याः शलाकाञ्जननिर्मितेव कान्तिर्भ्रुवोरायतलेखयोर्या ताम् वीक्ष्य लीला चतुरामनङ्गः लज्जातिरश्चाम् यदि चेतसि स्यात् असंशयम् पर्वतराजपुत्र्याः तम् केशपाशम् प्रसमीक्ष्य कुर्युः बालप्रियत्वम् शिथिलम् च सर्वोपमाद्रव्यसमुच्चयेन यथा प्रदेशम् विनिवेशितेन सा निर्मिता विश्वसृजा प्रयत्नात् एकस्थ सौन्दर्यदिदृक्ष एव ताम् नारदः कामचरह कदाचित् कन्या किल प्रेक्ष्य पित समीपे सदेशकूं भवि प्रेम शरीर गुलभे वय से तो सौ निवृत्ता ऋते कृशानोर्न हि मन्त्रपूतम् अर्हन्ति तेजांस्य पराणि हव्यम् अयाचितारम् नहि देवदेवम् अद्रिःसुताम् ग्राहयितुम् शशाक अभ्यर्थनाभङ्गभयेन साधुः माध्यस्थ्यमिष्टेऽप्यवलम्बतेऽर्थे यदैव पूर्वे जनने शरीरम् सा दक्षरोत्सुदती ससर्ज तदा प्रभृत्येव विमुक्तसङ्गः पतिः पशूनामपरिग्रहोऽभूत् सकृत्तिवासापसे यतात्मा गाप्रवाहोऽक्षित देवदारु प्रस्थम् हिमाद्रेर्मृगनाभिगन्धि किञ्चित् क्वणत् किन्नरमध्युवास गणाः न मेरुप्रसवावतंसाः भूर्जत्वचः स्पर्शवतीर्दधानाः मनःशिलाविच्छुरितानिषेदुः शैलेयनद्धेषु शिलातलेषु तुषारसङ्घातशिलाः खुराग्रैहि समुल्लिखन् दर्पकलः ककुद्मान् दृष्टः कथञ्चिद्गवयैर्विविघ्नैः असोढसिंहध्वनिरुन्ननाद तत्राग्निमाधाय समित्समिद्धम् स्वमेव स्वमेवमूर्त्यन्तरमष्टमूर्तिः स्वयं विधाता तपसः फलानाम् केनापि कामेन तपश्चचार अनर्घ्यमर्घ्येण तमद्रिनाथः स्वर्गौकसाम् अर्चितमर्चयित्वा आराधनायास्य सखी समेताम् समादिदेशप्रयताम् तनूजाम् प्रत्यर्थिभूतामपि ताम् समाधेः शुश्रूषमाणाम् गिरिशोऽनुमेने विकारहेतौ सति वि क्रियन्ते येषाम् न चेतांसि त एव धीराः अवचितबलिपुष्पा वेदिसम्मार्गदक्षा नियमविधिजलानाम् बर्हिषाम् चोपनेत्री गिरिशमुपचार प्रत्यहं सासुकेशी सुकेशी नियमितपरिखेदा तच्छिरश्चन्द्रपादैः